श्रीमलभृचन्द्रो नानाशिवेद्य रक्षदृष्टैः तव प्रमासामोषण्डे जत्वा दुर्गाः प्रतिष्ठतो ष्ट प्रत्यादय चक्रेष्टम् ओ गोदा विष्णुश्वरे ज्ञाने अवस्तिरादीया चक्रोणे से जानाति ब्रह्मणे घातु विश्वान् ेन अभिजायमुक्तैः विप्रेषु विश्वायुगतेतस्तेः अर्थाविशेषु शर्मासन्ते बाबा जनतामयङ्गी तस्य प्राताय त्या वायव तापदेयन्ते अग्ने पश्यन्त अनन्तर विश्ववेदादि स्वादकम् दशभाय रात्रो मित्रम् प्रदेशे माया रक्ष स्तु केवलः इन्द्रन्नः न्द्रस्य िनः इन्द्रप्राणीरनोषदा गायन्त्रित्वा गायत्रिणोच्यञ्चर्चमर्थिनः ब्रह्माय सत्याः सन्ति गजमान् ज्ञाना अवानकं तमसमिनायन्तमस्मिनायन्द्रियं ततमोजह विनेन्द्रमदविनीजा इच्छमन्यरह अदश्वदं तमी कृदिय आत्मज्ञानं विधासते इन्द्रक्षत्रमदवानोजोदयता वृषदर्शिना अवानोजोजममिप्रेयन्तं लोदेरज्ञो नमो लोके मामिता मित्रस्यापि नाशतः प्राताम् ष्टाभगायस्वश्वाय लक्षन्त्रम् ब्रह्मा न इन्द्रम् महयन्दो अर्कैलवो च अस्मात् त्वले भभयो रथाय इन्द्राय च मत्सुन्त तदस्य नयत इन्द्रभयातः हेततो नभयं प्रति भगवान् चक्तेत वदनं होगले अंबिषो अंबोवने वसुधा विस्पतस्य प्रथारिभुववेसि इन्द्रत्र भलयनसुभद्रं अमृङ्गाः नाद्धन कुन्दाव श्रदी रन्मेट चनों सतिना भगाना कर दखंत अपानियो स्मान गर्के जल्योशाइं दर्शगना बरत बेस्वन क्योवृत रन्चर विद्वाने बेशादो नंप्रपो नुस्वादा रेनिक्रनुष पिस्वाना के ज़ताव पाण्डु हृदयभ्यमस्तेभ्य स्वाहे नेन्द्रा नेन्द्रौषदौ नरेन्द्रौषदौ बृहस्पतेन्द्राणस्ते न पाण्डुते न हृदयस्तेभ्य स्वाहाय रक्षौ ने स्वाहाय नाय सखि नाय बृहस्पते बृहस्पते रक्षा स्वाहा यु श्वान्स वस्पति विरायुश्वान्ते अत्वाय शायु श्वासो देवयु श्वास ब्रह्मायुश्व हृदयनाय छन्दे त्वायशाय शमनन्द या वामिन्द्रावृणाय दव्या दमोऽस्ते्यावामिन्द्रावृणादेतस्यामस्तम्बा मेदे अन्ये तस्य अयं क्षत्रै देवाभिसन्नवन्ती राजा चन्द्रमा गन्धर्वेग्रय भुज्युत्सव मा यज्ञागन्तर्वत्स्य दक्षिणा सरसत्त्वात् विचर्माणो वागन्तर्वत्स्य सामान्यं सरसौर्ण्यं विश्वकस्य आभागन्तर्वत्स्य ओब्जसोत्तममनस्य वदेश सरुणिदिहाय यजा नरस्य ज्ञानिकम कायस्फोटं समयेणं सम्बसरेणा स्वस्थ्यं सामन्तराय यज्ञवदन विचर्कन्तर्वत्स्य तस्य प्रजाय च सर्वेभ्यामः सर्वेभ्यामः सुधानास्पतीभ्यः सर्वेभ्यामः अयम् पुरोहरि एष यनानि ग्रामण्यौ स्थलाचकृतस्ती सर्पा हेतुर्व्याघ्राप्रा ैदर्बायं <laughs> विद्युद्धेनाष्मणे श्च वने कृष्णेन जयन्त प्रवन्तमोजसांस जातरानुवेदय त्वंसकायो समविज्ञाय सविरत्र यज्ञम् सोमः देवसेनाम् दयन्त्री वरुणस्य राज्ञ आदित्या स्मान्नायन्वादिनान्वादिनाम् देवदामेरावस्सन्तु बाहवः इन्दो वत्सन्म यच्छत्मना दृश्यायदासता गच्छामि मे पगच्छमे द्रविनञ्जने दत्ताचमे त्रे विचमे ज्ञातञ्चमे सुमे गुरुवस्तयश्चमे पञ्चमे नामयच्छमे दीर्घादिशमे दीर्घायपञ्चमे न विक्रञ्चमे रञ्जमे दोषाचमे श्रीपञ्चमे नमो जगतः प्रयाध्यक्षेत्रे नमो नारायणाय नमः देवाविहवे सन्तो सर्वहिन्द्रां बन्तो वरसो विष्णुरन्ते नमांतरिक्षम लोसवनकं धात्प्रदानं प्राणे अस्मिन्तः भविधर्मं कृणमये दत्ताम्यहं यासिनिस्तु मये देवोदे वैक्याहोतारं विन्दन्तो भवे रक्तस्य मत्वा सुगिरः मकं गदन्दमनां कृपया होत सत्यमसोमये आह स्मय परयामादनो धर्मारदा विते सोमराजसिंधय वन्यसन्निवेदन भरतारवन्नो नौमा परिपालिनस्तम ब्रह्मचन्द्रं विदुपणस्ते मैजां चित्तं प्रभुदा विनेषते धाताधारणा मोरेस पदं चलवम स्निहारमतिमात्का पुरक्षेन्द्रमानादेशेन्द्राश्निभ्यापेता <laughs> रुद्रा परिष्ठकं हर्वान् रविन्द्रमोहे गोविन्दं मे कर्मणि सिद्धानां पुसंय नमः सवामृतं परं नम्भाकस्य श्रीदं नन्दिदेवकृष्णार्धनागयः त्वं नैनं नदोधोरे हि सनामृतं चक्रं नमः चित्रस्य मन्दिये धनसुक्तरे वदन परकस्थः भावकम् अपि यो राज्यस्य सदा मगनं सनामृतं चक्रं नमरास्य सत्कारं मनयते सम्भजेनय कृष्णानन्दं विमलदेवाणी नमो लोकाय देवं मंगलां पित्राणां मित्रवनां सत्तवजराणां नमो नारायणाय यदा नमुर्तमं स्यादवराणां नमो नारायणाय यो वा नमुर्तमं सत्तर्वानं लचरं भयाय यक्षये श्रेष्ठ <tırmaster> <decimal realised homemade> श्रीभगवानस्तु नाम तनागतः गलग्रहं भमर्भवं सूर्ययाः सुजक्हे समन्वर वितवालो सोमदेव अस्मिनादिगोत्रो भिन्तो नाम चरमागतः अरुभाराम पठेरो प्रं तोवेना अनुवासं मिश्र वर्धुष्टे फासुरवेदमनुक्तयेन जंभेम ेन सहोकेन अनो व्यञ्जनं यज्ञं देवैः संजलात् अक्षष्टावजनानाभोदनं दास्ये मया अनिरमुणेतं नान्यैतै संजलरप्ते कृत्वे लक्ष्णानामिनाप्रणालोमजकणा वैशारो रोत्त्यापे アルवरात् भिक्षुते नमासा जय नृका आगच्छत गच्छत नृणां नयते विश्वारस सदा भ्रष्ट अभिकंसादिरात्रिरप्पा जन्तम् जयत जनाधिपते जगत् केति यस्य तेन वराणाम् सो विद्यावापरिनातुदौ हरिदेव लगमसह पुर्वे वादस्य परिरक्षनादं चेतस्य पत्नी अधिनानुल्लालम् प्रोक्त्या वा प्रथमे नायतो जोहने विजयं अमृदं नमः इत्येण वर्णबडपारि विस्तारकः तस्य महारक्षनागः देवेशस्त्वादिनादि देरानाः कार्वेनात्मसिष्यदो विश्वरक्खिने पिता हद्रत्स्वः प्रमृसिन्चन्त्यमृदं नमः धीरः नमस्त्वामन्जानं अप्रदाण्येन प्रथम् भायाः दीनक्स्या से नवरक्षिता चतुर्विधता राज्ञः सवतानां ज्ञानमस्तु नृतेन विस्ताय च वेचलं भाञ्जम पेतानी ओजस्विनी नामानि कत्यादि सप्रभा। नास्तनि मोदवदे प्रदातु प्रागीनानां सुखदे दीनक्स्या सेवं सवत्सवान वाञ्छित ीनामासयन्ति प्रस्यापदिकल्माचक्रैव रक्षिताश्चादेवष्मायम् ैवपाणामस्तिणा गृहा स्वप्नो वैषव ककुर अवस्थावचनानां सदेषां पश्चा स्वप्नो वैश ककर अवस्थामानाम् सदेशा बहुपरि गृहं वैशोल्यां वैशोल्या ेषां ऋतु ᐔጔ �ų�ქሎጃን � hireṨfrā ṛr ὢጅጃኃኩ ḪᏳ ẁᴫ� 그게 ኖაፃ� ṻ� yup없ến Vinod ῌᶅጃኙ Ṩም ንა ัж �hei� ចጃ ẁაፃፃድ ḥᓱᾷ Ẕ᣼ habían नाम परमेणमदः इन्द्रैन्द्रिवसनां सम्मिश्रवजर्या इन्द्रवत्ती रञ्जयति इन्द्रो देहकाय उत्प्रे आसुर्यं प्रोवति दिवि इन्द्रो रञ्तिमेयेते इन्द्रमाजेष्णुनाव सहस्रप्रदेशा नवकारणं तिंमि समं धायामसे अहमे वक्ता धर्मनवे सक्षारगो बोदयनि किं सतामनेतह ओदिकस्स वलेइतह युग्ने जोगेदु सम्ज्ञान निराวจ्वो संपुधा सलो आदंचुदागा भवक्षोक्तो सुदा कृषो ए ए मत्सोहेते असोहेते ब्राह्मणोहेते सुचो महागा ुषायसाय चे जनाः आद्यमस्य मत्दं च नाहस् सर्वदेयलो प्रवर्तिं नमि जयहरं कृतकं अमि येने कोरोनानि कथां वादु बहु अपकयं नस्यं अपकय देव बहु अपकय व्यास्यं मतेतस्य ब्रह्मा सर्वं देव दिशकं रामश्वटाराय नमः यन्द्रजा <laughs> जारूपाणि वधुदा वदन्ते चरित्रे राणस्फुरन्ति चेवा ज्योतिर्षिता <laughs> स्तोत्रेण भद्रं दशिं वन्ति सत्यं श्रोत्रेण श्रोत्रेण मोदश्च महर्षु सर्वादिशाय श्रोत्रं भगवज्ञाय वाभाग्यतया सकलकारणाय पुरुषसमायो प्रज्ञादेवी सुभगादजाननानात्मसत्तासम्विधानाय अत्नक्पीविनियाय ऋञ्जे शरणं वर्गेण साक्षावा प्रज्ञादेवी सुभगादजाननानात्मसत्तासम्विधानाय पथेक्षेशवृषवस्य माजे आदिरसंकेवलसस्मे प्रज्ञादेवी सुभगादजाननानात्मसत्तासम्विधानाय ्रायत्वा तेजस्वते तेजस्वन्तज्ञ श्रीणामी रायत्वा पयस्पदे पयस्वन्तज्ञ श्रीणामी श्रीणामी लोहि तेजस्वदस्त्वमे प्रत्ययं प्रयच्छामि ओजस्वान् विश्वत प्रत्ययं मध्यमायो प्रयच्छामि यस्मान् विश्वतः प्रत्यायते आर्यवस्ति विश्वायुर्व ुष्यायणाय aha nama mushalaya guruyai prana hal gramane yo ditih varaha saha vasa ashalaya shridev janitvai namo shivanandana prabhasya ashwiniye namaha स्मै अपाय च jaya aitaya gandha sanana namah jaya anushyeme jaya tadivishanti bhovah ahamikih kadadasya jaya vadasya name aham namanna padanta vadme janto hasate ham kare jaya आदन्नाममचरामे नमः। ओवामन्दमनरस्योदयत। विश्वविधेवेदेवै कृतनृपमनं। यत्त्रोक्यमे। सविनयप्रणामे भगवान्। त्वं देवक्त्वा प्रतिष्ठितं देसाकरं। नमः कृतं देववाद महावाः आन्धकसं भवन्दे नमः कजनां प्रदानां तुमिमिचते यमतेन प्रवीति पदयित सदस्य नमोनुक्शदिनो सया एवदा महा भवति केवलाणि आमे यतसकरण सरसंग लक्ष्मी महादन्तह वत्स्यम्या सुशिवो भवतु मदादित्यादि सर्वे तपन्ते पासं स्थितमे धाम यस्यानि साहमन्त्रिता इन्द्रपत्नी वेदानामाभिः भवन्ति देवी स्वभवास्तु देहास्तपेण ददातुकृतस्य लोके ब्राह्मणा च मनुष्या वदन्ति श्रद्धया विन्दते हविः च सा वेदयामसिद्धे दासन इदम श्रद्धानुग्रे अस्माकमुदितं कृते श्रद्धा विश्वविदन् अपि शामधयामसे न्तं जगत्मा विश्वमिदं जगत् ब्रह्म प्रजाविज्ञं न यदप्रजानन् ब्रह्म समिद्भवत्याह दीना कृत्वा सहा स्य वितनन्ति विश्वस्य ब्रह्मस्य भक्षः च क्रमदासप्रापत् सभासा सुप्रमाणे पिबन्ति रुद्रस्य पञ्चामोषुपृच्छता ्रा चिवीतं ने चातु ज्ञानसंसाचरतो हता विचक्षणा चतुरण्डो माय यादि बच्चा े गं प्रप्सुषदाहुवे वामयवचामलमाजानि धन्ता प्राणेन स्याम्यामा जन्म नात्र मय्यदामितः धान्यं रक्षिञ्च सर्वमायशर्म्यजप्रदेश्या कपयामनीषा रास्ता है अख्बार है अभी कबूल है बुलाना धर्म कीमचते रे रास्ते सज्जना भगवान की कृपा प्रभु मार्ग देवी बाजी वृक्षासी यतो जा वा पृथिवीनष्टदक्षाष्टर्धोरा निर्यन् ब्रह्म स वृक्षासी भवयन्तारुद्रम्भवे पुत्र मेर्य राजा नित्यं भगं भेर्याः देवादिवमुदन्न स्यामः एव स्ति विश्वर्नः पादमिति ेवनेन्द्रियां <laughs> रान्द्रहोगरावेरा नमो भगवते भृषभद्रयन्ती दयाय नमः सवरजा प्रकटीरणे नागन्ने तत्क्षत्त्रं निगमस्य धामं नमो भगवते जय जय सज्ञान निराय धत जया रुद्रतमात्रिम दयारुद्रवरिणामक्षत्रं तु सदा मन्यमानो ਸਰਦਾਰਾਸਵਾਦ ਅਫਰੀਕਾ ਅੰਦਰ ਰਾਣੀ ਜੀਗਨੂਲੇ ਬਨਰਵਾ ਅਬਸ਼ਾਇ ਜਾਨਾ ਨਾ ਦੇ ਮਿਚਿਨਾ विना वर्धयन्ति गतप्रथमं जायमानः प्रदना सुयष्णहोदय पुरस्तानः सर्पेऽप्यभिरस्तु जटं दरिक्षं पृथिवीं जिगन्ते सूर्यस्यापि नक्षत्रेह ग्धानाग्निशक् विद्याविद्मा वयगं धनितां धेन resta cetaretam pranta vada manara gamaya bhagavata bhagavata jagatpitradhara bhagavate tan karne ramheshaya bhagasyet prathamangameva kshama bhagavan madhamadhena ajatu devasavita vayam हम पु Lagrangeत मनावत है संत हमधर हम मन मचा सब तय चतुम दनवीय है न न प्रेम रे नथ परम सत्य समाधि देय आप अपना सुनादि एनाम भट्ट रक्षत्रम के चित्र जग सदा जब देखुरादन जय नमो धर्मचार्य परम विश्वम नक्त करत जटा जष्ठ चक्र प्रोहिदास्य मम नन प्रजा मीरो देहं दनोद गोमेनासि परावरताश्वै सुमत कृण्य बाई नक्षत्रम केर्गा क्षत्राणामतिपत्नी चक्षत्रो नूर्ण पूर्ण प्यायन्ते दुरितानि विश्वाभ्यास्म हव्य विष वर्धयन्तः सेत्र नक्षत्रमिदगात् पुरस्सारेन्द्रष्टक्षत्रमिदं ब्रन्दराय प्रणहाय दृष्टवे य मह्यम् अहं राजा मुदामि या दिव्याः पत्रगता समबू रामषाणा अभयदिमम् याश्च गोप्यायाश्च विश्वे उपशम्पन्ति देवा मधुभ्यः कन्याय पतयस् सुपेषा नक्षत्र विजित्येवृण्वन्ति श्रोणं मृदस्य गोपा या देवी सर्वभूतेषु माता रूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमस्तस्यै जय जय कंपा तुरज सपरस्तार जय जय कंपा नवदव परस्तार जय जय कंपा श्रविष्ठा जय जय कंपा राजा विराजमान ीर्घायुरस्यानि नक्षत्रकं जतपि चक्षुषा न प्रतिपादमानः देवायन्ति सन्ते रामा रामा राम नस्य प्रभाजमानसंविधान उग्रह तरे क्षमलहता गञ्ज्ञं सूर्यं देववजमेकपाद रामरा सौरिष्ठं धर्महै यद्बद्दे यक्प्रथमं अलयेति कादेवनाम समान जाना रामे वन्णा सोवमा सोभासः रामरा सो विरक्षं ते करहै त्याधिवेतिबन्नाज्ञ ृच्छन्तो बहुधा विरोपा नक्षत्रकं भविष्यायन्तव्य राजा महतो महायस्मिन् नक्षत्रे यम एति राजा राजस्य वि सा <laughs> संविधाना <laughs> <laughs> <laughs> <laughs> <laughs> ेवयन्दातमानमो विश्वनाहमेत्रय नागवेदं वयं देवी ब्रह्मणा संविता न्तः <imitation> प्रभुलियते राज्ञानेश्वर समादिसवरहे ओदुसनीय आ सजते सूर्यः उपजन् नक्षत्रमच्छिमद गुरु शुभवे दृष्टि जलस्य हक्पेरले गमी रही अरुणाचन्द्र नक्षत्र आत्मत्तये उच्चरते विनामत नक्षत्र देवाये ब्रह्मये ब्रह्म ेन च क्षर्मेत्रस्य ीतं मिलं लक्षणेधानि देवस्तव देव ्रमणेश्वर्यज्ञन्देव <imitation> मन्यता <imitation> ी सञ्चनक्रथेष्पं दं धेद्य de decir que de hecho tienen que cambiar ya con el problema que era la manera de